विमोहितां विस्मृतबावलीलां वियोगदीनां अमृतां सुमौले सञ्जीवयत्वं सरसाङ्गादे अनन् गदेवे प च व्याप्त शीतकरीत्व सेव तरला तस्यास्तनुगूपटरग सङ्क्रान्तं खं कर्णान्तमुग्धेक्षणौ श्रुत्वा धैर्यम्बुपागतो बहिरिवश्वासानिलो वे गतः तैतन्यो त्वयि गुहितं विषधरो विषधरे नाध्यापहर्तुं क्ष्मः क्षमः अपि वपुषि समर्पितार्धभागां तव पुरभाग निगूहन उत्सुकाय परुषविरहिणी कथं सैवज्वलति आसमेषु सरलं सगीते